होर्मेन बृहस्पतिरक्तामता निजकम् जडद्विश्वे देवा सूक्तवाच प्रथिमेवा दर्वा मायकम् देव मधु मनुष्ये मधुजनिष्ये मधुवक्ष्यामि मधुमदिष्यामि मधुमदेभ्यो वाचमुद्याचकम् सुश्रोषेण्या मनुष्येभ्यस्तम् वा वन्तु सौभाग्यै बिदरानुमदन्तु